ॐ नमो भगवते वासुदेवाय अथश्रीनारायण नारदसंवादे पतिव्रता धर्मनिरूपणं नाम त्रिंशोऽध्याय नारद उवाच स्तुता पतिव्रता नारी त्वया पूर्वं तपोनिधे तल्लक्षणानि सर्वाणि समासेन वदस्व मे सूत उवाच नोदितो नारदेनेत्थं पुरातनमुनिस्वयं पतिव्रतायाः सर्वाणि लक्षणान्याः भूसुराः श्रीनारायण उवाच शृणु नारदवक्ष्यामि सतीनां व्रतमुत्तमम् कुरूपो वा कुवृत्तो वा सुखभावोऽ वा पतिः रोगान्वितः पिशाचो वा क्रोधनो वा वृद्धो वा रौद्रो वा, वा, वा सततं देववत्पूज्यः साध्व्या वाक्काय कर्मभिः न जातु विषमं भर्तुः स्त्रियाकार्यं कथञ्चन बालया वा युवत्या वा वृद्धया वापि योषितं न स्वातन्त्र्येण कर्तव्यं किञ्चित् कार्यं गृहेष्वपि अहङ्कारं विहायाथ कामक्रोधौ च सर्वदा मनसो रञ्जनं पत्युः कुर्यान्नान्यस्य कुत्र चेत् वीक्षिताप्यन्यैः प्रियवाक्यैः प्रलोभिताम् स्पृष्टा वा जनसं मर्दे न विकारमुपैति यं यावन्तो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः तावद्वर्षसहस्राणि नाकं ताः पर्युपासते पुरुषं सेवते नान्यं मनोवाक्कायकर्मभि लोभितापि परेणार्थैः सा सती लोकभूषणं दौत्येन प्रार्थिता बलेन विधृतापि वा वस्त्राद्यैर्वासिता वापि नैवान्यं भजते सति वीक्षिता वीक्षते नान्यैर्हासिता न हसत्यपि भाषिता भाषते नैव साध्वी साधुलक्षणं रूपयौवनसम्पन्ना गीते नृत्येति कोविदां स्वानुरूपं नरं दृष्ट्वा न यातिविकृतिं सती सुरूपं तरुणं रम्यं कामिनीनां च वल्लभं यानेच्छति परं कान्तं विज्ञेया सा महासती देवो मनुष्यो गन्धर्वः सतीनां परप्रियः अप्रियं नैव कर्तव्यं पत्युः पत्न्या कदाचनक्ते यथा पत्यौ दुःखिते दुःखिता च यं मुदिते मुदितात्यर्थं प्रोषिते । मलिनां वरां सुप्ते पत्यौ च याशेते पूर्वमेव प्रबुध्यते प्रविशेच्चैव वाह्नौ याते नान्यं सा नान्यं कामयते चित्ते सा विज्ञेया पतिव्रतां भक्तिम श्वशुरयोः कुर्यात् पत्युश्चापि विशेषतः धर्मकार्येऽनुकूलत्वम् अर्थकार्येऽपि सञ्चये गृहोपस्करसंस्कारि सक्ताया प्रतिवासरम् क्षेत्राद्वनाद् वा ग्रामाद् वा भर्तारं गृहमागतं प्रत्युत्थायाभिनन्देत आसनेनोदकेन च प्रसन्नवदना नित्यं काले भोजनदायिनी भुक्तवन्तं तु भर्तारम् न वदेदप्रियं क्वचित् आसने भोजने दाने सम्माने प्रियभाषणे दक्षया सर्वदा भाव्यं भार्यया गृहमुख्यया गृहव्ययनिमित्तञ्च यद्द्रव्यं प्रभुणार्पितं निर्वर्त्य गृहकार्यं किञ्चित् बुद्ध्यावशेषयेत् त्यागार्थमर्पिते द्रव्ये लोभात् किञ्चिन्न धारयेत् भर्तुं विना नैव स्वबन्धु स्वबन्धु अन्यालापमसन्तोषं परव्यापारसङ्कथाःतिरोषं च क्रोधं च परिवर्जयेत् यच्च भर्ता न पिबति यच्च भर्ता न यच्च भर्ता न चाश्नाति सर्वं तद्वर्जयेत् सति तैलाभ्यङ्गं तथा स्नानं शरीरोद्वर्तनक्रियां चैव दन्तानां कुर्यात् पतिमुदे सति त्रेताप्रभृति नारीणां मासि मास्यार्तवं मुने तदा दिनत्रयं त्यक्त्वा शुद्धा स्याद्गृहकर्मणि प्रथमे हनिचाण्डालि द्वितीये ब्रह्मघातिनी तृतीये रजकी प्रोक्ता चतुर्थे हनिशुध्यति स्नानं शौचं तथा गानं रोदनं हसनं तथा यानमभ्यञ्जनं नारी द्यूतं चैवानुलेपनं विशेषतो दिवा स्वापं तथा वैदन्तधावनं मैथुनं मानसं वापि वाचिकं देवतार्चनम् वर्जयेच्च नमस्कारं देवतानां रजस्वलं रजस्वलाया संस्पर्शं सम्भाषां च तया सह त्रिरात्रं स्वमुखं चैव त्रिरात्रं स्वमुखं नैव दर्शयेच्च रजस्वलं स्ववाक्यं श्रावयेन्नैव यावत्स्नाता न शुद्धितः स्नात्वान्यं पुरुषं नारी न पश्येच्च रजस्वलम् ईक्षेत भास्करं देवं ब्रह्मकूर्चं ततप्यवेत् केवलं पञ्चगव्यं च क्षीरं वात्मविशुद्धये यथोपदेशं नियत वर्तयेद्धिवराङ्गनं गर्भिणी चेद्भवे तथा नियमतत्पराम् अलङ्कृता सुप्रयाता भर्तुः प्रिय हि ते रतां तिष्ठेत् प्रसन्नवदनां स्वधर्मनिरता शुचिः कृतरक्षा सुभूषा च वास्तुपूजनतत्परम् कुस्त्रीभिर्नाभिभाषेत् शूर्पवातं च वर्जयेत् मृतवत्सादिसंसर्गं परपाकं चसुन्दरी। सुन्दरी नबीभत्सं किञ्चिदीक्षेत् न रौद्रां शृणुयात् कथां गुरुं वात्युष्णमाहारम् अजीर्णं न अनेन विधिना साध्वी शोभनं पुत्रमाप्नुयात् अन्यथा गर्भपतनं स्तम्भनं वा प्रपद्यति हीनां निजगुणैरन्यां सपत्नीं नैव गर्हयेत् ईर्ष्या रागसमुद्भूते विद्यमानेऽपि अप्रियं नैव कर्तव्यं सपत्नीभिः परस्परं न गायेदन्यनामानि न कुर्यादन्यवर्णनं पत्युः स्थेयं वल्लभसन्निधौ निर्दिष्टे च महीभागे वल्लभाभिमुखावसीत् नावलोक्यादिशैरवलोक्यं ना स्यात् पत्युराननपङ्कजं स्यात। कथ्यमाना कथा भर्त्रा श्रोतव्या सादरं स्त्रियां पत्युः सम्भाषणस्याग्रे नान्यत् सम्भाषयेत् स्वयम् आहूता सत्वरं गच्छेद् रतिस्थानं रतोत्सुकां पत्यौ गायति सोत्साहं श्रोतव्यं हृष्टचेतसां गायन्तं च पतिं दृष्ट्वा भवेदानन्दनिर्वृतां भर्तुः समीपे न स्थेयम् सोद्वेगं व्यग्रचित्तया कलहो न विधातव्यः कलियोग्ये प्रिये स्त्रियां भर्त्सिता निन्दितात्यर्थं पतिव्रतां व्यथितापि भयं त्यक्त्वा कण्ठे गृहिणीतवल्लभम् उच्चैर्नरोदनं कुर्यान् नैवाशुक्रोशे च तं प्रति पलायनं न कर्तव्यं निजगेहाद् बहिः स्त्रियाम् उत्सवादिषु बन्धूनां सदनं यदि गच्छति लब्ध्वानुज्ञां तदा पत्युर्गच्छेदध्यक्षरक्षितं न वसेत् सुचिरं तत्र प्रत्यागच्छेत् गृहं सती प्रस्थानाभिमुखे पत्यौ नासनमङ्गलभाषिणी न वार्योऽसौ निषेधोक्त्या न रोदनं तदा अकृत्वोद्वर्तनं नित्यम् पत्यौद्देशान्तरे गति वधूर्जीवनरक्षार्थं कर्मकुर्यादनिन्दितम् श्वश्रु श्वशुरयोः पार्श्वे निद्राकार्या न चान्यतः प्रत्यहं पतिवार्ता च तयान्वेष्या प्रयत्नतः दूताः प्रस्थापनीयाश्च पत्युः क्षेमोपलब्धये देवतानां प्रसिद्धानां Vidhātavyam कर्तव्यमुपयाचनम् एवमादिषु विधातव्यम् एवमादितव्यं सत्याप्रोषितकान्तयम् अप्रक्षालनमङ्गानां मलिनां गन्धमाल्यविवर्जनं नखरोम् नाम संस्कारो दशनाम मार्जनम् parair परैर्नर्म परचेष्टा विचिन्तनं स्वेच्छापर्यटनं चैव परपुंसाङ्गमर्दनम् अटनं चैकवस्त्रेण निर्लज्जत्वं यथा गतिः इत्यादिदोषाः कथिता योषितां नित्यदुःखदा निरवर्त्य गृहकार्याणि हरिद्रालेपनस्तनुं प्रक्षाल्य शुचितो येन कुर्यान्मण्डनमुज्ज्वलम् समीपम् प्रेयसो गच्छेद् विघसन्मुखपङ्कजम् अनेन नारीवृत्तेन मनोवाग्देहसंयुता आहूता गृहकार्याणि त्यक्त्वा गच्छेच्च सत्वरं किमर्थं व्याहृता स्वामिन् संप्रसादो विधेयतां माचिरं तिष्ठतां द्वारी न द्वारमुपसेवयेत् स्वामिप्रत्यर्पितं किञ्चित् कस्मैचिन्न ददात्यपि सेवयेद्भर्तुरुच्छिष्टम् इष्टमन्नफलादिकं महाप्रसाद इत्युक्त्वा मोदमाना निरन्तरं सुखसुप्तं सुखासीनं आतुरेष्वपि कार्येषु पतिम्नोत्थापयेत् क्वचित् नैकाकिनी क्वचित् नैकाकिनी क्वचिद् गच्छेन् न नग्नास्नानमाचरेत् साध्वीं नो भावयेत् क्वचित् नो लूखले न मुसले न वर्धिन्यां दृशद्यपि न यन्त्रकेऽपि देहल्यां सती चोपविशेत् क्वचित् तीर्थस्नानार्थिनी नारी पतिपादोदकं पिबेत् शङ्करादपि विष्णोर्व पतिरेवाधिकस्त्रियाः व्रतोपवासनियमं पतिमुल्लङ्घ्ययाचरेत् आयुष्यं हरते भर्तुर्मुत्तरं दद्याद् या नारी क्रोधतत्परं शुनिसा जायते ग्रामे शृगाली निर्जने वने स्त्रीणां हि परमश्चैको नियमः अभ्यर्च या भर्तारं परित्यज्य मिष्टमश्नाति केवलम् उलूकी जायते क्रूरा वृक्षकोटरशायिनी या भर्तारं समुत्सृज्य रहश्चरति केवलं ग्रामे वा सुकरी भूयाद् याहुं प्रियं ब्रूते सा जायते खलु या सपत्नीं सदीर्श्येत् दुर्भगासान्यजन्मनि दृष्टिं विलुप्य भर्तुरया कञ्चिदन्यं समीहते काणा वा विमुखी चापि कुरूपा चैव जायते बाह्यादागतमालोक्य त्वरिता च जलासनैः ताम्बूलैर्व्यजनैश्चैव पादसंवाहनादिभिः अतिप्रियतरैर्वाक्यैर्भर्तार्या सुसेवती पतिव्रता शिरोरत्नं सा नारी कथिता देवो गुरुर्भर्तार्थव्रता तस्मात् सर्वं परित्यज्य पतिमेकं समर्चयेत् जीवहीनो यथा देह क्षणादशुचितां व्रजेत् भर्तृहीना तथा यूषित् सुस्नाताप्यशुचिः सदा विधवा दर्शनात्सिद्धिर्जातु क्वापि न जायति विहाय मातरं चैकाम् आशीर्वादप्रदायिनी अन्याशिषमपि प्राज्ञा त्यजे दाशीविशोपमाम् कन्यां विवाहसमये वाचयेयुरिति द्विजा भर्तुः सहचरीभूयात् जीवतो जीवतोपि वा तस्माद्भर्तानुयातव्यो देहवच्छायया स्वया एवं सत्या सदा स्थेयं भक्त्या पत्यनुकूलया व्यालग्राही यथा व्यालं विलादुद्धरते बलात् एवमुत्क्रम्य भूदूतेभ्यः पतिं स्वर्गं न येत्सति यमदूताः पलायन्ति सतीमालोक्यदूरतः अपि दुष्कृतकर्माणम् उत्सृज्य पतितं पतिं यावत् स्वलोमसङ्ख्यास्ति तावत् कोट्ययुतानि च भर्त्रा स्वर्गसुखं भुङ्क्ति रममाणा पतिव्रता शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलद्वयं पितुः कुलं तथा पत्युरिहामुत्र च दुःखिताः अनुयाति न भर्तारं यदि दैवात्कथञ्चन तत्रापि शीलं संरक्ष्यं शीलभङ्गात् पतत्यधः ददवैगुण्यात् पिता स्वर्गात् पतिः पतति नान्यथा विधवा कबरी बन्धो भर्तुर्बन् शिरसो वपनं एकाहारः सदा कार्यो न द्वितीयः कदाचन पर्यङ्कशायिनी नारी विधवा पातयेत् पतिं तस्माद् भूषयनं कार्यम् नैवाङ्गोद्वर्तनं कार्यं न ताम्बूलस्य भक्षणं गन्धद्रव्यस्य सम्भोगो नैव क्वचित् तर्पणं प्रत्यहं कार्यं भर्तु कुशतिलोदकैः तत्पितुस्तत्पितुश्चापि नाम गोत्रादिपूर्वकम् श्वेतवस्त्रं सदाधार्यम् अन्यथा रौरवं व्रजेत् इत्येवं नियमैर्युक्ता विधवापि पतिव्रता श्रीनारायण उवाच नैतादृशं दैवतमस्ति किञ्चित् सर्वेषु लोकेषु सदैवतेषु यदा पतिस्तुष्यति सर्वकामान् लभ्यात् प्रकामं कुपितश्च तस्मादपत्यं विविधाश्च भोगाः वस्त्राणि माल्यानि तथैव गन्धा स्वर्गे च लोके विविधा च कीर्तिः इति श्रीबृहन्नारदीय पुराणे पुरुषोत्तमवासमाहात्म्ये श्रीनारायण नारदसंवादे पतिव्रता धर्मनिरूपणं नाम त्रिंशोऽध्यायश्रीपुरुषोत्तमार्पणमस्तु